मार्कण्डेयपुराणम् अध्यायं तर्टिफोर् मदालसोवाच एवं पुत्रगृहस्थेन देवताः पितरस्तथा सम्पूज्या हव्यकव्याभ्यामन्येनातिथिबान्धवाः भूतानि भृत्या सकलाः पशुपक्षिपिपीलिकाः भिक्षवो याजमास्त ये चे वसदागृे सदा चवता दुना दा गृह मेधिना पापम भुंग समुंघय नित्क्रिया अलर्क उवाच कथितं मे त्वया मादर् नित्यनैमित्तिकञ्चयत् नित्यनैमित्तिकञ्चैव त्रिविधं कर्मपौरुषं सदाचारमहं श्रोतुमिच्छामि कुलनन्दिनी यत्कुर्वन् सुखमाप्रोदि मानवः मदालसोवाच गृहस्थेन सदा कार्यमाचारपरिपालनं नह्याचारविहीनस्य सुखमत्र परत्र वा पुरुषस्य च भूतये भवन्ति यत्सदाचारं समुल्लङ्घ्य प्रवर्तते दुराचारो हि पुरुषो नेखायुर्विन्ददे महद कार्यो यत्नसदाचारे आचारो हन्ध्यलक्षणं तस्य स्वरूपं वक्ष्यामि सदाचारस्य पुत्रक तन्ममैकमनाश्रुत्वा तथैव परिपालय साधने यत्नकर्तव्यो गृहमेधिना तत्संसिद्धो गृहस्थस्य सिद्धिरत्र परत्र च पादेनार्थस्य पारत्र्यं कुर्यात् सञ्चयमात्मावान् अर्थेन चात्मभरणन्नित्यनैमित्तिकान्वितम् पादञ्चात्मार्थमा यस्य मूलभोधं विवर्धयेद एवमाचरतः पुत्र अर्धः साफल्यमर्हति तद्वत्पापनिषेधार्थं धर्मकार्यो विपश्चिदा परत्रार्थं तथैववान्यकाम्योऽत्रैव फलप्रदः प्रत्यवायभयात् विरोधवान् द्विधा कामोऽपि गदितस्त्रिवर्गस्याविरोधतः परम्परानुबन्धांश्च धर्मादीं तान् शृणुष्व धर्मो धर्मानु बन्धार्थो धर्मो बाधकः उभाभ्यां च द्विधा कामस्तेन तौ जद्विधा, कामस्ते जद्विधा पुनः ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चापि चिन्तयेत् समुद्धाय तथा चम्यप्राङ्मुखो नियतशुचिः पूर्वां सन्ध्यां स नक्षत्रां पश्चिमां स दिवाकरामुपासीत यथा न्यायं नयिनां जह्यादनापदीम् असत्प्रलापमनृतं वाक्परुष्यं वर्जयेत् असच्चास्त्रमसद्वादमसत्सेवाञ्च पुत्र सायं प्रापतस्तथा होमं नियतात्मवान् नोदयास्तमने बिम्बमुदीक्षेद विवस्वतः केशप्रसाधनादर्शदर्शनं दन्तधावनम् पूर्वाह्न एव कार्याणि देवतानां च तर्पणं ग्रामावसतीर्थानां क्षेत्राणाञ्चैव वर्त्मनि विन्मोत्रं नानुतिष्ठेत न ना कृष्टे न च गोव्रजे नग्नां परस्त्रियं उदक्यादर्शन स्पर्शो वर्ज्य संभाषण तथा नासुमूत्रम नाधि मैथुन वचरेमोत्र केश भस्मिका सुशाङ्गारास्तिशीर्णानि रज्जुवस्त्रादिकानि च नाधि तिष्ठेत् तथा प्राज्ञः पथि चैवं तथा भुवि पितृदेवमनुष्याणां भूतानां च तथार्चनं कृत्वा विभवदपश्चाद्गृहस्थो भोक्तुमर्हति प्राङ्मुखो दङ्मुखो वापि स्वाच्छान्दो वाग्यदशुचिः भुञ्जितान्नञ्च तच्चित्तो ह्यन्तर्जानुःसदा नरः उपगादादृते दोषं नान्यस्योदीरयेद्बुधः प्रत्यक्षलवणं वर्ज्यमन्नमत्युष्णमेव च न गच्छन्न चतिष्ठन्वै विन्मोत्रोत्सर्गमात्मवान् कुर्वोदनैव चाचामन्यत् किञ्चिदभिभक्षयेद् उच्छिष्टो नालपेत् किञ्चित् स्वाध्यायं च विवर्जयेत् गां ब्राह्मणं तथा चाग्निं स्वमूर्धानं च न न च पश्येद्रविं नेन्तुं न नक्षत्राणि कामतः भिन्नासनं तथा शय्यां भाजनञ्च विवर्जयेत् गुरूणामासनं अनुकूलं तथा लापमभिवादनपूर्वकम् तथानुगमनं कुर्यात् प्रतिकूलं न सञ्जयेद् नैकवस्त्रश्च भुञ्जेद न कुर्याद्देवदार्चनं न वाकयेद्विजान्नाग्नौ मेहं कुर्वोद्बुद्धिमान् स्नायेत न नरो नग्नो न शयेत कदाचन न पाणिभ्यामुभाभ्यां च कण्डूयेद शिरस्तथा न चाभीक्ष्णं शिरस्त्राणं कार्यं निष्कारणं न रैः शिरस्त्रातश्च तैलेननाङ्गं किञ्चिदपि स्पृशेत् अनध्यायेषु सर्वेषु स्वाध्यायं विवर्जयेत् ब्राह्मणानि लघु सूर्यान्नमेहेदकदाचन उदङ्मुखो दिवारात्सर्गं दक्षिणामुखः अबाधाशु यथा कामं कुर्यान्मूत्रकुरीषयोः दुष्कृतम् न गुरोर्ब्रूयात् क्रुद्धं चैनं प्रसादयेत परिवादं न शृणुयादन्येषामपि कुर्वतां पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च विद्याधिकस्य गुर्विण्या हारार्तस्य यवीयसः मूकान्धबधिराणां च मत्तस्योन्मत्तकस्य च पुंश्चल्याकृतवैरस्य बालस्य पतितस्य च देवालकं चैत्यतरुं तथैव च दुष्पथं विद्याधिकं गुरुं देवं बुधकुर्यात् प्रदक्षिणम् उपानद्वस्त्रमाल्यादि धृतमन्यैर्न धारयेत् उपवीतमलङ्कारं करकञ्चैव वर्जयेद् चतुर्दश्यान्तधाम्यां पञ्च दश्याञ्चपर्वसु तैलाभ्यङ्गं तथा भोगम् योषितश्च विवर्जयेद् न क्षिप्तपादजङ्घश्च प्राज्ञस्तिष्ठेत्कदाचन न नचापि विक्षिपेत् पादौ पादं पादेन नाक्रमेद मर्माभिःखादमाक्रोशं पैशून्यं च विवर्जयेत् दम्भाभिमानतीक्ष्णानि न कुर्वोद विचक्षणः मूर्खोन्मत्तव्यसनिनो विरूपान्मायिनस्तथा न्यूनाङ्गाश्चाधिकाङ्गाश्च नोपहासैर्विदूषयेद् परस्य दण्डं नोद्यत् चेच्छिक्षार्थं पुत्रशिष्ययोः तद्वन्नोपविश्येत्प्राज्ञः पादेनाक्रम्य चासनं संयावं कृशर मांसं नात्मार्थमुपसाधयेत् सायंप्रातश्च भोक्तव्यं कृत्वा चातिथिपूजनम् प्राङ्मुखो दङ्मुखो वापि वाग्यदो दन्तधावनं कुर्वोद सततं वत्सवर्जयेद्वर्जविरुधः वीरुधः नोदक्षिरा स्वपेज्जादु न च प्रत्यक्षिरानरः शिरस्यगस्त्यमास्थाय शयिताधपुरन्तरम् नदु गन्धवधिष्वप्सु स्नायुत न तथा निशि उपरागे परं स्नानमृते दीनमुदाहृतम् अपमृज्यान्न चास्नातो गात्राण्यम्बरपाणिभिः न चापि धूनयेत्केशान् वासी न च नानुपन मदद्यादस्नाध कर्चिदुध न चाप्त रक्तवास सियाचिरासिदिवा न चुियापोर्ना विभूषणे वर्ज्यं च विदशं वस्त्रमत्यन्तोपहतं च यत् केशकीडावपन्नञ्च क्षुण्णं स्वभिरवेक्षितम् अवलीठावपन्नञ्च सारोद्धरणधूषितं पृष्टमां संवृध मां सं वर्ज्यमांसं न भक्षयिदशतदं प्रत्यक्षलवणानि च वर्ज्यं चिरोषितं पुत्र भक्तं पर्युषितं च यद् पिष्टशाकेक्षु पयसां विकारान् नृपनन्दन तथा मांसविकारांश्च तेजवर्ज्याश्चिरोषिताः उदयास्तमनेभानो शयनञ्च विवर्जयेद् नास्नादो नैव नचैवान्यमनानरह न चैवान्यमना नरः न चैव शयने नोऽव्यामुपविष्टो न शब्दवद न चैकवस्त्रो प्रेक्षताम प्रदाय च भुञ्जीदपुरुषस्नादसायं प्रातर्यथा विधि परदारा न गन्तव्याः पुरुषेण विपश्चिदा युष्टापूर्तायुषां हन्त्री परदारगतिर्नृणां न हीदृश्यमनायुष्यं लोके किञ्चन विद्यते यादृशं पुरुषस्येह परदाराभिमरुषणं देवार्चनाग्निकार्याण तथा कुर्वभिवादनं कुर्वोद कुर्वोदः सम्यगाचम्यस्तद्वदन्नभुजिक्रियाम् अधेनाभिरगन्धाभिरद्भरचाभिरादरात् आचामेत पुत्र मुखो आचामेत्पुत्रपुण्याभिः प्राङ्मुखो दङ्मुखोऽपि वा अन्तर्जलादावसधाद्वल्मीकान्मूषिकस्थलादकृदशौचावशिष्टाश्च वर्जयेत् पञ्च वै मृदः प्रक्षाल्यहस्तौ पादौ च समभ्युक्ष्य समाहितः अन्तर्जानुस्तथा चामे त्रिश्चतुर्वा पिबेतपः परिमृज्यद्विरास्यान्तं कानिमूर्थानमेव च सम्यगाचम्यतो येन क्रियां कुर्वोद वै शुचिः देवतानां ऋषीणाञ्च पितॄणाञ्चैव यत्नदः सामहित भूत कुरो दस नर क्षुवा निषीव्यवास पैधाया चेदु क्षुदे वलींद तथा निष्टीवनाशु कुचमनम स्पर्शम गो पृष्ठसादर्शनम कुर्वोतालम्बनं चापि दक्षिणश्रवणस्य वै यथा विभवदो ह्येतत्पूर्वाभावे ततः परम् अविद्यमाने पूर्वोक्ते उत्तरप्राप्तिरिष्यते न कुर्याद्दन्तः सङ्घर्षं नात्मनो देहताडनं स्वप्नाध्ययनभोज्यानि सन्ध्ययोश्च विवर्जयेत् सन्ध्यायां मैथुनञ्चापि तथा प्रस्थानमेव च पूर्वाह्ने तददेवानां मनुष्याणां च मध्यमे भक्र्या तथा पराह्ने च कुर्वोदपितृपूजनं शिरस्नातश्च पैत्र्यमथापि वा प्राङ्मुखो दङ्मुखो वा विश्मश्रु कर्म च कारयेत् व्यङ्गिनीं वर्जयेत्कन्यां कुलजामभिरोगिणीं विकृतां पिङ्गलाञ्च वाचाडां सर्वदूषिताम् अव्यङ्गीं सौम्यनाशाञ्च श्रवलक्षणलक्षितां तादृशीमुद्वहेत् कन्यां श्रेयःकामो नरः सदा उद्वहेत् पितृमात्रोश्च सप्तमीं पञ्चमीं तथा रक्षेद्दारान्त्यजेदीर्ष्यां दिवा च स्वप्नमैधुने परोपतापकं कर्मजन्तुपीडाञ्च वर्जयेत् उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयं स्त्रीजन्मपरिहारार्थं पञ्चमीमपि वर्जयेत् ततःषष्ठ्यां व्रजे द्रात्र्यां श्रेष्ठा युगमासु पुत्रक युक्मासु पुत्रा जायन्ते स्त्रियो युग्मासुरात्रिषु तस्माद्युक्मासु पुत्रार्थो संविशेद सदा नरः विधर्मिणोऽह्निपूर्वाख्ये सन्ध्याकाले च षण्डकाः क्षुरकर्मणि वान्ते च स्त्रीसम्भोगे च पुत्रका पुत्रक स्नायीतचेलवान्प्राज्ञः खडभूमिमुपेत्य च देववेदद्विजातीनां साधु गुरोः पतिव्रतानां च तया यज्वितपस्विनां परिवादं न कुर्वत् परिहासञपुत्रक कुर्वदामविनीतानां न श्रोतव्यं कथञ्चन नोत्कृष्टशय्यासनयोर्नापकृष्टस्य चारुहेत् न चामङ्गल्यवेश्यस्यान्न चामङ्गल्यवाग्भवेत् धवलाम्भरसंवेदश्रितपुष्पविभूषितः नोद्धूतोन्मत्तमूठैश्च दो नाविनीतैश्च पण्डितः गच्छेन्मैत्रीं न चाशीलैर्न च चा चौर्यादिदूषितैः न न न चाद्व्ययशीलुबर्ना वैरी बंदगीूनगति सालिक न्यूनर्न नि न सर्वसङ्गिभिर्नित्यं न च दैवं परैर्नरैः कुर्वोदसाधुभिर्मैत्रीं सदा चारावलम्बिभिः प्राज्ञैरपि सुनैषकृण्युद्योगभागिभिः सुहृद्दीक्षितभूपालस्नातकश्वशुरैः सः ऋत्विगादीन् षडर्कार्हा नर्चयेश्च गृहागतान् यथा विभवदः पुत्रद्विजान् संवत्सरोषितान् अर्चयेन्मधुपर्केण यथा कालमदन्त्रितः तिष्ठे च शासने तेषां श्रेयस्कामो द्विजोत्तमः न च तान् विवदेद्वीमानाकृष्टश्चापि तैः सदा सम्यग्गृहार्चनं कृत्वा यथास्थानमनुक्रमाद सम्पूजयेत्तदो वह्निम् दद्याच्च हृदी क्रमाद प्रथमां ब्रह्मणे दद्यात् प्रजानां पतये ततः तृतीयाञ्चैव गुह्येभ्यः कश्यपाय तथा परां तदोनुमदये दत्वा दद्यात् गृहबलिं ततः पूर्वाख्याद मयायते नित्य निकर्म क्रिया विधद कुल ये शृणु यहां विभागंधदेवादिश्य वै पृथके पर्जनयधर दद्याच्च माणके त्रयं वायवे च प्रदिशं दिग्भ्यः प्राच्यादिदक्रमाद ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमं विश्वेभ्यश्चैव देवेभ्यो विश्वभूतभ्य एव च उषसे भूतपतये दद्याच्योत्तरतस्ततः स्वधा नाम इदित्युक्त्वा पिदुर्भ्यश्चापि दक्षिणे कृत्वा पसव्यं वायव्यां यक्ष्मैतत्ते दिभाजनाद अन्नवशेषमिच्छन्वै तोयं दद्याद्यथा विधि तदोन्नाग्रं समुद्धृत्य हन्धकारोपकल्पनं यथा विधि यथा न्यायं ब्राह्मणायोपपादयेत् कुल्यात्कर्माणि देवा देवादीनां तथा कुर्याद्ब्राह्मेणाचमनक्रियाम् अङ्गुष्ठोत्तरदोरेखा पाणेर्या दक्षिणस्य तु ये दत् ब्राह्ममिधि ख्यादं तीर्थमाचमनाय वै तर्जन्यङ्गुष्ठयोरन्धः पैत्र्यं तीर्थमुदाहृतं पितॄणां तेन तोयादि ददध्यान्नान्दीमुखा धृते अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः तीर्थकनिष्ठिकामूले कायं तेन प्रजापदेः एवमेभिः सदा तीर्थैर्देवानां पितृभिः सह सदा कार्याणि कुर्वोद नान्यतीर्थेण कर्हि चिद् ब्राह्मेणा चमनं शस्तं पित्र्यं पैत्र्येण सर्वदा देवतीर्थेन देवानां प्राजापत्यं निजेन च नान्दीमुखानां कुर्वोदप्राज्ञः पिण्डोदकक्रियां प्राजापत्येन तीर्थेन यच्च प्रजापतेहे। प्रजापतेः युगपज्जलमग्निं विचक्षणः गुरुदेवान्प्रदि तथा न च पादौ प्रसारयेत् नाचक्षि जलं नाञ्जलिना पिबेद शौचकालेषु सर्वेषु गुरुष्वल्पेषु वा पुनः न विलम्बे न मुखेनानलं धमेद तत्र कुत्र न वस्तव्यं यत्र नास्ति चतुष्टयम् ऋणप्रदा वैद्यश्च श्रोत्रियसजला नदी जिदामित्रो नृपो यत्र बलवाद्धर्मतत्परः तत्र नित्यं वश्येत् प्राज्ञ कुधक् कुनृपदौ सुखं यत्रा प्रधृष्यो नृपतिर्यत्र शस्यवतीमही पौरासुसंयदा यत्र सततं न्यायवर्दिनः यत्रा मत्सरिणो लोकास्तत्र वा स यस्मिन् कृषिबलराष्ट्रे प्रायशो नादिभोगिनः यत्र औषधन्यशेषाणि वसेत्तत्र विचक्षणः तत्र पुत्र न वस्तव्यं यत्र इतत्रितयं सदा जिगीषुः पूर्ववैरश्च जनश्च सततोत्सवः वसे नित्यं सुशीलेषु सह पंडितः पण्डितः इत्येतत् कथितं पुत्र मया ते हितकाम्यया इति श्रीमार्कण्डेयपुराणे अलर्कानुशासने सदाचारकथनं नाम चतुस् त्रिंशोऽध्यायः ओ